हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्मरामायणे अयोध्याखण्डे सप्तमा श्री श्रीभादेव उवाच स्वमन्त्रोऽपि तदायोध्यां प्रविवेच प्रविवेश वस्त्रेण मुखमाच्छाद्य वाजपेयी कुलितलोचन बहिरेव संस्थाप्य राजानम् द्रष्टुमाययो जयशब्देन राजानम् तुत्वा तम् प्रणनामः ततो राजानमन्तम् तम् तं सुमन्त्रम् विवहलो ब्रवीत् सुमन्त्र राम कुत्रास्ति सीतया लक्ष्मणेन च कुत्र त्यक्तस्वया राम किम् माम् पापि न अब्रवीत् सीता वा लक्ष्मणो निर्दयम् मां किमब्रवीत् हा गुणनिधे हासि ते प्रियवादिने दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि विलप्य एवं चिरं राजा निमग्नो दुःखसागरे एवं मन्त्री रुदन्तं तं साञ्जलि वाक्यमब्रवीत् रामस्ति तत् सौमित्री मया नीता रथे ने शृङ्गवेरपुराभ्यासे व्यवस्थिता गुहेन किञ्चिदानीतम् फलमूलादिकं च यत् स्पृष्टा हस्तेन सम्प्रीत्या नागृहीद्विसजर्ज च वच समानाय गुहेन रघुनन्दनाय जटाङ्गूटमावर्ध्य माह नृपते स्वयम् सुमन्त्रे ब्रूहि राजानम् शोकस्तेस्तु न मत्कृते साकेतादधिकं सौख्यम् विपिनेनो भविष्यति मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते आश्वासे तु राजानम् वृद्धं शोक परिपृदम् सीता चा सुपरिताक्षी मा नृपसत्तम दुःखदयावाच रामम् किञ्चिदवेक्षति साङ्गम् प्रणिपातुम् मे ब्रूहि श्वश्रोपदाम्बुजे इति प्ररोदति सीता गता किञ्चिदवाङ्मुखी ततस्ते श्रुपरीताक्षात् नावम् अरुरुहस्तदा यावद्गङ्गाम् समुत्तीर्य स्थित तुखे न महता पुनरेगत तथंती कौसल्याजानब्रवीत कैकेयी प्रिय भारे प्रसन्नो दत्वान् वरम तम राज्य देहि तस्वुत्र कि विभासी कृत् म तत्सव इदानीम् किम् नु रोदिषि कौसल्यावचनम् श्रुत्वा क्षते स्पृष्ट वाग्निना पुनश्चोकाश्रु पूर्णाक्ष कौसल्यामिदमब्रवीत् दुःखेन म्रियमाणम् माम् किम् पुनर् दुःखयस्य अलम् इदानीम् एव मे प्राणा निश्चयः शक्तोऽहम् बाल्यभावेन के केनिमिना पुरा पुराहम यौवने चाप चापे धरो निशी अचरम मृगया सो नद्या महवने त्रम मुनि कशिदादी पिपा सात यो जलमेतु अपूर जल्दे कुंभ तदा शब्दो भवन्महन् गजः पिबति पानीयम् इति मत्वा महानिषि बाणम् धनुषि सन्धाय शब्दवेधी न मक्षिपम् हरतोऽस्मीति तत्राभूत् शब्दो मानुष सूचकः कस्यापि न कृतो दोषो मया हतो विधि प्रतीक्षते मां माता पिता च जलकाङ्क्षय तच्छ्रुत्वा भय सन्त ततोऽहम् पौरुषम् वचः च नैर्गत्वा तत्पाशम् स्वामिन् दशरथोऽस्म्यहम् अजानता मया विद्ध त्रातु मरहसि मुने इत्युक्त्वा पादयो तस्य पतितो गद्गदाक्षरहे तदा माम महस मा भैषीनृपसत्तमः ब्रह्महत्या स्पृशन्न त्वाम् वैश्योऽहम् तपसि स्थितः पितरो माम् प्रतीक्षेते शत्रुभ्याम् परिपीडितौ तयो तम् मोदकम् देहि शीघ्रम् एव विचारयन् न चेत् त्वाम् भस्मसात् कुर्यात् पिता मे यदि कुप्यति जलम् दत्त्वा तु नौ कृतम् सर्वम् निवेदय शल्यम् उद्धन मे देहात् त्यक्षामि पीडितः इत्युस्तो मि नाशीघ्रम् बाणम् उत्पाट्य देहतः स जलम् कलशम् धृत्वा गतोऽहम् यत्र दम्पती अतिवृद्धो अन्धदृशो क्षुत्पिपासादितो निशि नायाति सलिलम् गृह्य पुत्रम् किं वात्रकारणम् अनन्य गतिको वृद्धौ शोचो त्रुट् परिपीडितौ आवामुपेक्षते किं वा भक्तिमानावयो सुतः इति चिन्ता व्याकुलतौ मत्पादन्याशजम् ध्वनिम् श्रुत्वा प्राहपिता पुत्र किं विलम्ब कृतत्वया देह्यावयो पिब तमी पुत्रकंप दो प्रकाशमगम शनि पाद प्रणिपत अब्रव विनयान्वी नाहम पुत्र स्वयध्याजा दशरथोस्म्यह पापो मृगयासक्त रात्रो मृग विक जलवता दूरेहम श्रुत्वा जलगतं ध्वनिम् श्रुत्वाहं शब्दवेदित्वा एकं बाणम् अथात्यजम् हतोऽस्मीति ध्वनिं श्रुत्वा भया तत्राहमागतः जटापि कीर्य पतितं दृष्ट्वाहं निरारकम् भीतो गृहीत्वा तत् पारो रक्ष रक्षेति च मा भैषीरिति मां ब्रह्महत्या हत्या भयं न ते मत्पित्रो सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः रक्षेता माम् दयायुक्तो युवां हि चरणागतम् इति श्रुत्वा तु दुःखासौ विलप्य बहुशोच्यतम् पतितो न सुतो यत्र न य तत्र विलम्बयन् ततो नीतो सुतो यत्र मातातो वृद्ध दम्पती पृष्ट्वा श्रुतं तु हस्ताभ्याम् बहुशोऽथ विलेपतु हा हेति कृन्द मानोतो पुत्रपुत्रेत्यवोचताम् जलम् देहीति पुत्रेति पुत्रे किमर्थं न ददास्यलम् ततो माम् उच दुशीघ्रम् चितिं भूपते मया तदैव रचिता चिति तत्र निवेशिता त्रयस्तत्राग्निरु दग्धा सेत्रिदिवं ययौ तत्र वृद्ध पिता प्रह त्वमप्येवं भविष्यसि पुत्रशोके न मरणं प्राप्स्यसे वचनान् मम स मम प्राप्त शापकालो निवारितः इत्युक्त्वा विललापाथ राजाशोक समाकुलः हा रामपुत्रः आसीते हा लक्ष्मण गुणाकरे तद्योगादम् प्रातु मृत्यम् कैके सम्भवम् वदन्नेवम् दशरथ प्राणा त्यक्त्वा दिवं गतः कौसल्या च सुमित्रा च तथा न्या राजयोचितः चक्रोषुश्च विलेपुश्च गुरेस्ताडनपूर्वकम् वसिष्ठ प्रययो तत्र प्रातरमन्त्रिभिरावृतः तैल द्रोण्यां दशरथं क्षिप्ता दूता नथा ब्रवीत् गच्छत् त्वरितं शाश्वः युधाजिन्नगरं शत्रुघ्न सहित प्रभु उच्यताम् भरतशेखरम् आगच्छेति मम ज्ञय अयोध्याम् प्रति राजानम् कैकेयीम् चापि पश्यतु इत्युक्त्वा तरितम् दूतः गत्वा भरतमातुलम् युधाजितम् प्रणम्योचु भरतम् सानुजम् प्रति वसिष्ठस्त्वा भरते सानुज प्रभु शीघ्रम् आगच्छतु परिम् अयोध्याम् अविचारयन् इत्याज्ञप्तोऽथ भरतः त्वरितम् भयविवलः आययो गुरुणादिष्ट सत्सह दूतये सुनुजः राज्ञो वारागवस्यापि दुःखम् किञ्चिदुपस्थितम् इति चिन्ता परो मार्गे चिन्तयन् नगरम् ययो नगरम् भ्रज लक्ष्मीकम् जनसंवादवर्जितम् उत्सवश्च परित्यक्तम् दृष्ट्वा चिन्ता परो भवेत् प्रविश्य राजभवनम् राजलक्ष्मी विभजितम् अपश्यत् कैकयीम् के तत्र एकामेवासनस्थिताम् न नाम शिरसा पादो मातुर्भक्ति समन्व आगत भर दृष्ट्वा, कैकेयी प्रेम संभ्रम उत्थ लिंग सांग आरोप्य संस्था मुर्न्यवघ्रा पप्रछ कुशल स्वुस्त सा पिता मे कु भ्रता माता चुभ लक्षण दिस्टा तम कुशली मया दृष्टोऽसि पुत्रक इति पृष्ट स भरतो मात्रा चिन्ता कुलेन्द्रियः दूयमाने न मनसा मातरम् तमपृच्छत् मातः पिता मे कुत्र एकातम् ह्यः संस्थितः त्वया विना न एतात् कदाचिदृशि स्थितः इदानीम् दृश्यते नैव षति मे वृष्वा पितर मेध्य भय दुखम च जायते अथहैक्र किम दुखे न तव या गतिमशलानाधाधी गतिम पिता ते पितृवत्सल त्रुवा निप पातुव्यां भरतः शोकविह्वलः हातात् क्व गतोऽशी तम् त्यक्ता मां वृजिनान्वे असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भ इति विलेपितं पुत्रम् पतितम् उक्तमूर्धजम् उत्थाप्यम् वृज नयनयने कैकेयी पुत्रमब्रवीत् समाश्वतीः भद्रं ते सर्वं सम्पादितं मया तामाह भरत साधु प्रियमाणः किमब्रवीत् तमाह कैके देवी भरतम् भयवर्जिता हा राम राम सीतेति लक्ष्मणेति पुनः पुनः विरपन्नेव देहं त्यक्त्वा दिवं ययो तामाह भरतो हेम्ब रामसन्निहितो न तदानीम् लक्ष्मणो वापि सीता वा कुत्र ते गताः कैकयवाच रामस्य यो राजार्थम् पित्रा ते सम्भ्रम कृत तव राज्ये प्रदानाय तदाहम् विघ्नमाचरम् राज्ञा हि मे पूर्वम् वरदेन वरद्वयम् याचितम् तदिजानीम् तयोरेकेन तेखिलम् राज्यम् रामस्य चैकेन वनवासो निव्रतम् ततश्च परो राजा राज्यम् दत्त्वा तवैव हि रामम् सम्प्रेषयामास वनमेव पिता तव सीताप्यूनगिता रामम् पातिव्रत्यम् उपाश्रिता सौभ्रात्रम् दर्शयन् रामम् अनुया तो लक्ष्मण वन गु सर्व राजन चिंतन प्रलपन राम रातमूर्व श्रुआ वज्रह तय वज्रम पूमो निस्य तृष्टवा दुखिता तदाय कैकेन वत्सोक न किम तवे राजे दुखस्वसर कु ब्रुवंतीम आलोक्य मातरम मातरं असंभाषासी पापे मे घोरे तम भर्तृगा घाटिनी पापे तद्गा पापवान्न सांत अहम अग्नि प्रवेशा विषम वैशाम्यहम खड्गेन वातजास्मानम् हत्वायामेयमक्षयम् भक्तृघातिनि दुश्चेतम् पुम्भी पाकम् गमिष्यसि इति निर्भस्य कैकेयीम् कौसल्या भवनम् ययो सा पीतम् भरतम् दृष्ट्वा मुक्तकण्ठा पादयो पतितस्तस्या भरतोऽपि तदा रुदयेत् आलिङ्ग्य भरतम् राम माता यशस्विनी कृशाती दीनवदना साश्रू नेत्रे दमब्रवीत् पुत्र त्रयी गते दूरम् एवं सर्वम् बभूदिदम् उक्तम् मात्रा श्रम् प्रयाते मातु चेष्टितम् पुत्र स भार्यो वनमेव यात स लक्ष्मणो मे रघु श्रीराम्भरो बद्धजटा कलप सन्त्यज्य मां दुःखसमुद्रमग्नाम् आम हामे रघुवंशनाथ दातोऽसि मे तम् परतः परात्मा तथापि दुःखम् न जहाति मां वै विजेज बलियानिति मे मनीषा स भरतो वीक्ष्य विलपन्तीम् भृशं शुच पादो गृहीत्वा प्रायेण श्रुणुमाचो मम कैकेय्यायत्कृतं कर्म रामराज्याभिषेचने अन्यद्वा यदि जानामि सा मया यदि पापं मे तु तदा मात ब्रह्मत्या शतोद्भवं फट्वावशिष्टं खड्गेण अरुन्धत्या समन्वितं भूयात् खिलम् मम यद्यहं यद्यहम् शपथं शपथम् कृत्वा रुरोद भरतस्तदा कौसल्या तम् अलिङ्ग्य माशुचह जानामि माशु च एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम् वसिष्ठो मन्त्रिभिः सार्धम् प्रययो राजमन्दिरम् रुदन्तम् भरतम् दृष्ट्वा वसिष्ठ प्राहसादरम् वृद्धो राजा दशरथो ज्ञानी सत्य पराक्रमः भुक्त्वा मर्त्य सुखम् सर्वम् इष्टः विपुल दक्षिणै अश्वमेधादिभिर्यज्ञै लब्ध्वा रामं सुतं अन्ते जगामत्रिदिवम् देवेन्द्रार्धासन् प्रभु तं शोचसि वृथैवत्तम् अशोच्यम् मोक्ष्यभाजनम् आत्मा नित्यो व्यवेशुद्धो जन्मनाशा विवर्जितः शरीरम् जड मत्यर्थम् अपवित्रम् विनश्वरम् विचार्यमाणे शोकस्य नावकाश कथञ्चनः पिता वा तदयो वापि यदि मृत्युवशं गतः शोचन्ति स्वात्मा ताड़न पूर्वक निस्सारे खल संसारे विदा भवदराग्य हेतु शांति सौख्यम तनोति चन्म वाद्य लोके तम मृत्युरन्व तस्म पिहार्यों मृत्युजन्मता स्वर्मा वशत जन्तूनां प्रभवाप्ययो वियानन्नप्यविद्वान्य कथं शोचति बान्धवान् ब्रह्माण्ड कोटयो नष्टा सृष्टयो बहुशोगतः शुष्यन्ति सागराः सर्वे कैवास्थाक्षण जीविते चरपत्रान्तलग्नाम्बु बिन्दुवत्क्षणभङ्गुरम् आयुषयत्य वेलायाम् कस्तत्र प्रत्ययस्तव देहि प्राक्तन देहोत्थ कर्मणा देहवान् पुनः तद्देहोत्थेन च पुनः एवं देह सदात्मनः यथा त्यति वैजीर्णं वासगृह्णाति नूतनं तथा जीर्णं परित्यज्य देहि रेहं पुनर्नवम् भजत्येव सदा तत्र शोकस्यावसरः कुतः आत्मानम् निम्रियते दातु जायते न च वर्धते षड् भावरहितोऽनन्त सत्यप्रज्ञानविग्रह अन्धरूपो बुद्ध्यादि साक्षीराय विवर्जितः एक एव परो ह्यात्मा यद्वितीय समर्थ इत्यात्मानम् दृढम् ज्ञात्वा त्यक्त्वा शोकम् कुरुत् क्रियाम् शैलद्रोण्यापि दुर्देहम् उद्धृत्य सचिवैः सह कृत्यम् यथा न्यायम् अस्माभिः कुलनन्दन इति सम्बोधितः गुरुणा भरतस्तदा विसृज्य ज्ञानयम् शोकम् चक्रे स विधिवत् क्रियाम् प्रकारेण आहिताग्नेर्यथाविधि संस्कृत्य स पितुर्देहम् विधि दृष्टे कर्मणा एकादशे प्राप्ते ब्राह्मणान् वेदपारगान् भोजयामास विधिवत् शतशोथ सहस्र च उद्दिश्य पितरम् तत्र ब्राह्मणेभ्यो धनम् बभु दरो भगवान् ग्रामान् रत्नाम्बराणि च अवसर तत्र रामम् एवानुचिन्तयन् वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः रामोऽ्यम् प्रयाते सः जनकसुता लक्ष्मणाभ्यां सुहोरम् माता मे राक्षसीव दर्शनादेव सद्य गच्छाम्यारण्यमद्य स्थिरमति अक्षिरखलम् दूरतोपास्य राज्यम् रामम् सीता समेतम् स्मितरुचिरभुम्रमुखम् नित्यमेवानुसेवे इति श्री अध्यात्मरामायणे अयोध्याकाण्डे सप्तमः श्रीसीतारामचन्द्रार्पणमस्तु